ब्रह्माण्डपुराणं मध्यमभागम् अध्यायं 47 सेवेन् सगरोपाख्यानं वसिष्ठ उवाच तदो तदोमूर्धाभिषिक्तानां राज्ञाममिततेजसां षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान् तदो राजसहस्राणि गृहीत्वा मुनिभित्सह सजगाम जगाम महातेजाक् कुरुक्षेत्रं तपोमयं सरसां पञ्चकं तत्र खानयित्वा भृगुद्वहः सुखावगाहतीर्थानि तानि चक्रे समन्ददः जखान तत्र वैराज्ञशरीरप्रभवा मृजा सरांसितानि वै पञ्चपूरयामास भार्गवः स्नात्वा तेषु यथा न्यायं जामदग्नयः प्रतापवान् पितृन् सन्दर्पयामास यथा शास्त्रमदधृदः पिदु प्रेत राजेन्द्र श्राद्धादिगमशेष ब्राह्मण सहमश त्र चक्रे यथोदिवीर्ण प्रदीक कुरुक्षेत्रे तपोमये उवासा तन्द्रिद्यक् पितृपूज पायण तदप्रभृत्य भूद्राजं तीर्थानामुत्तमोत्तमं विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने सस्य ममतः त्रैलोक्य विश्रुतं यत्र चक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम् स्नानदानतपोहोमद्विजभोजनतर्पणैः भृशमाप्याहितास्तेन यत्र ते पितरोऽखिलाः अवापुरक्षयां तृप्तिं पितृलोकं च शाश्वतं समन्दपञ्चकं नाम तीर्थं लोके परिश्रुतम् सर्वपापक्षयकरं महापुण्योपबृंहितं मर्त्यानां यत्र यादानामेनांसि निखिलानि तु दूरादेवापयस्यन्ति प्रवादे शुष्कपर्णवद तत्क्षेत्रचर्यागमनं मर्त्यानामसदामिह न लभ्यते महाराज जादु जन्मशदैरपि समन्दपञ्चकं तीर्थं कुरुक्षेत्रेदि पावनं यत्र स्नाद सर्वतीर्थैस्नादो भवति मानवः कृदकृत्यस्ततो रामः सम्यक् पूर्णमनोरथः उवास तत्र नियधकञ्चित्कालं महामतिः तदसम्बल्सरस्यान्दे ब्राह्मणैः सहितो वशी पितृपिण्डप्रदानाय जामदग्न्यो गमद्गयां तदो गत्वा तदश्राद्धे यथा शास्त्रमरिन्दमःब्राह्मणां तर्पयामास पितॄनुद्दिश्य सत्कृतान् शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतं पितृतृप्तिकरं क्षेत्रं तादृग्लोकेन विद्यते यत्रार्चितास्वकुलजैर्यथाशक्तिमनागपि पितरपिण्डदानाध्याय प्राप्स्यन्ति गमक्षयां पितृनुद्दिश्य तत्रासौ तर्पितेषु द्विजातिषु ददौज विधिवत्पिण्डं पितृभक्तिसमन्वितः ततस्तत्पितरः सर्वे पितृलोकादुपागताः जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः अध संप्रीतमनसः समेत्य भृगुनन्दनं पूजस्तत्पितरः सर्वे दृश्या भूत्वान्तरिक्षगाः पितर उवाच महत्कर्मकृतं कृतं वीरभवतान्यैः सुदुष्करम् अस्मान् अपि यथा न्यायं सम्यक्तर्पितवानसि अस्माकमक्षयां प्रीतिं तथापित्वं न यच्छसि क्षत्रहत्यां हि कृत्वा कृतकर्मा भवद्यतः क्षेत्रस्यास्यप्रभावेण प्रक्रिया च तव दर्शनम् प्राप्तास्म पूजिताः किन्तु नाक्षय्यफलभागिनः समात्वं वीरहत्यादि पावप्रशमनाय हि प्रायचित्तं यथा न्यायं कुरुधर्मं च शाश्वतं वधा च विनिवर्तस्वक्षत्रियाणामतः परं पिदुर्नते पराद्यन्ते न स्वतन्त्रं यदो जगद तन्निमित्तं तु मरणं पिदुस्ते पिहिदं पुरा हन्तुं कम् कस्समर्थस्याल्लोके रक्षितुमेव वा निमित्तमात्रमेवेह सर्वस्य चैतयोः ध्रुवं कर्मानुरूपं ते चेष्ठन्ते सर्वये व हि कालानुवृत्तं बलवान्नृलोको नात्र संशयः बाधितुं भुवि भूतानि भूतानां न विधिं विना शक्यते वत्स सर्वोऽपि यदशक्रिया स्वकर्मकृत क्षत्रं प्रति तदोरोषम् विमुच्यास्मत्प्रियेप्सया शममाप्नुहि भद्रं ते सह्यस्माकं परं वसिष्ठ उवाच युक्त्युक्त्वान्तर्दधुः सर्वेऽपि धरो भृगुनन्दनं स चापि तद्वजः सर्वं प्रति जग्राह अकृदव्रणसंयुक्तो मुदा परमयायुधः प्रययौ च तदा रामस्तस्मात्सिद्धवनाश्रमम् तस्मिन् स्थित्वा ब्राह्मणैः सहितो नृप तपसे धृतसङ्कल्पो बभूव स महामनाः शरथं सहसाकं च धनुःसं हननानि च पुनरागमसङ्केतं कृत्वा प्रास्तापयत्तदा तदस् सर्वतीर्थेषु चक्रे स्नानमद्रितः परीत्य पृथिवीं सर्वां पितृदेवादिभूजकः एवं क्रमेण पृथिवीं त्रिवारं भृगुनन्दनः परिचक्रामराजेन्द्रलोगवृत्तमनुव्रतः ततः स पर्वतश्रेष्ठं महेन्द्रं पुनरप्यथ जगामतपसे राजन् ब्राह्मणैरभिसंवृदः स तस्मिन् स्थिररात्राय मुनिसिद्धनिषेविदे निवासमात्मनो राजन् कल्पयामास धर्मविद मुनयस्थं तपस्यन्तं सर्वक्षेत्रनिवासिनः द्रष्टुकामास्समाजग्मुर्नियदाब्रह्मवादिनः ददृशुस्ते मुनिगणास्तपस्याक्तमानसं क्षात्रं कक्षमशेषेण दग्ध्वा शान्तमिवानलम् अध तानागतान् दृष्ट्वा मुनीन् दिव्यांस्तपोमयान् अर्घ्यादि समुदाचारैः पूजयामास भार्गवः कृतकौशलसम्प्रश्नपूर्वकास् सुमहोदयाः तेषां तस्य ज समृद्धा कथा पुन्या मनोहराः ततस्तेषामनुमदे मुनीनां भावितात्मनां हयमेधं महायज्ञ माहर्तुमुपचक्रमे सर्व सहितो विश्वामित्र संभृत सर्वभारा वाद्य नृप विश्वाम्वाजमाकंडेदिस्त तनुमद्वा काश्यप गुरमात्मन वाजिमेधम तदो राज महाक्रदुम् तस्या भूत् काश्यपोध्वर्युर्युद्गादा गौधमो विश्वामित्रो भवद्धोदा रामस्य ब्रह्मत्वमकरोत्तस्य मार्कण्डेयो महामुनिः भरद्वाजाग्निवेश्याद्या वेदवेदाङ्गपारगाः मुनयश्चक्रुरन्यानि कर्माण्यन्ये यथा क्रमं पुत्रै शिष्यै प्रशिष्यैश्च सहितो भगवान् भृगुः सा दस्यमगरोद्राजन्नैन्यश्च मुनिभिः सह स सहाखिलं कर्म समाप्य भृगुपुङ्गवः ब्रह्माणं पूजयामास यथावद्गुरुणा सह अलङ्कृत्य यथा न्यायकन्यां जोपवदीं महीम् पुरग्राम पुरग्रामशतोपेदां समुद्राम्बरमालिनीम् आहूय भृगुशार्दूलसशैलवनकाननां काश्यपाय ददौ सर्वामृतेदं शैलमुत्तमं आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयद ततः प्रभृतिराजेन्द्र पूजयामास शास्त्रतः हिरण्यरत्नवस्त्रस्व गो गजान्नादिभिस्तथा पुरा समाप्य यज्ञान्ते तथा चावभृताप्लुतः चक्रे द्रव्यपरित्यागं तेषामनुमदे तदा दत्वा सर्वभूतानामभयं भृगुनन्दनः तत्रापि पर्वतवरे तपश्चर्तुं समारभत तदस्तं समनुज्ञाय सदस्या ऋत्विजस्तथा ययोर्यथा गतं सर्वे मुन यशंसिधव्रताः गदेषु तेषु भगवानगृतव्रणसंयुतः तपो महत्समास्थाय वन्यवसत्सुखी। काश्यपीतु ततो भूमिर्जननादाह्यनेकशः सर्वदुःखप्रशान्त्यर्थं मारीचानु मतेनतु। तत्र दीपप्रतिष्ठाख्यव्रतं विष्णुमुखोदितं चचारधरणि सम्यग् दुःखैर्मुक्ता भवच्च सा इत्येष जामदग्न्यस्य प्रादुर्भाव उदाहृदः यस्मिन् श्रुते नरः सर्वपादकैर्विप्रमुच्यते प्रभावः कार्तवीर्यस्य लोके प्रथिततेजसः प्रसङ्गात् कथिदत् सम्यग्नादिसङ्क्षेपविस्तरः एवं प्रभावस्स नृभक्कार्तवीर्यो भवद्भुवि न तादृश्यः पुमात् भावि भूदाधवाश्रुतः दत्तात्रेयाद्वरं वव्रे मृतिमुत्तमपूरुषाद यत्पुरा सोऽगमन्मुक्तिं ऋणे रामेण खादितः तस्यासीत् पञ्चमः पुत्रः प्रख्यादो यो जयध्वजः पुत्रस्तस्य महाबाहुस्ताल जङ्घो भवनृपा अभूतस्यापि पुत्राणां शतमुत्तमधन्विनां तालजङ्काभिधायषां विधिहोत्रोऽग्रजोऽभवद पुत्रैः सविधिहोत्राद्यैर्हैहयाद्यैश्च का राजभिः कालं महान्तमवसद्धिमाद्रिवानगह्वरे यः पूर्वं रामबाणेन द्रवन्पृष्ठेऽभिधाडितः तालजङ्घोपदद्भूमौ मूर्च्छितो गाढवेदनः ददर्शविधिहोत्रस्तं द्रवन्तैव वशादिव रथमारोप्य वेगेन पलायन स्परोऽभवद ते तत्र न्यवसन् सर्वे हि माद्रौ भयपीडिताः कृच्छ्रं महान्तमासाद्यशाकमूलफलाशनः तदशान्तिं गदे रामे तपस्यासक्तमानसे जालजङ्खस्वकं राज्यं सपुत्रः प्रत्यपद्यत सन्निवेश्य भूरिं भूयः पूर्ववन् नृपसतमः वः संस्तदा निजं राज्यमापालय दरिन्दमः सुपुत्रः सानुगबल पूर्ववैरमनुस्मरन् अभ्याययौ महाराज तालजङ्घः पुरं तव चतुरङ्गबलोपेदकम्पयन्निव मेदिनीम् रुरोदाभ्येद्य नगरीमयोध्या समहीपतिः ततो निष्क्रम्य नगरात् फल्गुतन्द्रोऽपि ते पिता युयुधेतैर्नृपैः सर्वैर्वृद्धोऽपि तरुणो यथा निहतानेकमादङ्गतुरङ्गरथसैनिकः शत्रुभिर्निर्जितो वृद्धः पलायनपरो भवद त्यक्त्वा स राज्यं सकोशबलवाहनम् अन्तर्वत्न्या च ते मात्रासहितो वनमाविशद तत्र चौर्वाश्रमोपान्दे निवसन्नचिरादिव शोका शोकामर्शसमाविष्टो वृद्धभावेन च स्वयं विलोक्यमानो मात्रा दे बाष्पगद्गदकण्ठया अनाम इव राजेन्द्र स्वर्गलोकमिदो गतः तदस्ते जननीराजन् दुःखशोकसमन्विता चिदामारोपयद्भर्तु रुदती सा कलेवरम् अनशनादिदुःखेन भर्तुर्व्यसनकर्षिदा चकाराग्निप्रवेशाय सुदृढा मदिमात्मनः और्वस्तदखिलं श्रुत्वा स्वयमेव महामुनिः निर्गत्य चाश्रमातां च चा वारयन्निदमब्रवीद नमर्तव्यं मर्तव्यं त्वया राज्ञि साम्प्रतं जठरे तव पुत्रस्तिष्ठति सर्वेषां प्रवरश्च वर्तिनाम् यदि तद्वचनं श्रुत्वा मादा तव मनस्विनी विररामृदेस्तां तु मुनिस्वाश्रममानयद तदसा सर्वदुःखानि नियम्यत्वन्मुखाम्बुजं दु दृक्षुराश्रमो बान्दे तस्यैव न्यवसत्सुखं सुषावच तदकाले काले सा त्त्वा मौर्वाश्रमे तदा जातकर्मादिकं सर्वं भवदत्सो करोन्मुनिः और्वाश्रमे विवृद्धश्च भवां स्तेनानुकम्पिदः त्वयैव विदिदं सर्वमधः परमरिन्दम एवं प्रभावो नृपधिकर्तवीर्यो भवद्भुवि व्रतस्यास्य प्रभावेण सर्वलोकेषु विश्रुतः जयर्जिदो युद्धे पिताते ते वनमादिशद तद्वृत्तान्तमशेषेण मया ते समुदीरितं ये दच्च तव सर्वलोक समन््रतंत्रोकलोकफलप्रदम नह्य कर्दोर्नृप्दे पुषाथुष्टएपंचिदुर्लभम भुवन संक्षेपेण मैख्याद्रदम हईहय भूभुज जामदग्न्यस्य च मुने किमन्यत् कथयामि ते जैमिनिरुवाच ततः सगरो राजा कृताञ्जलिपुडो मुनिम् उवाच भगवन्नेदत्कर्तुमिच्छाम्यसंव्रतं सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे कर्मणानेन विप्रर्शे कृतार्थोऽस्मिन् संशयः युक्त्योक्तस्तेन राज्ञादु तथेत्युक्त्वा महामुनिः दीक्षयामास राजानं शस्त्रोक्तेनैव वर्त्मना स दीक्षितो वसिष्ठेन सगरो राजसत्तमः द्रव्याज्ञानीयविधिवत् प्रचचार शुभव्रतम् पूजयित्वा जगन्नाथं विधिनाथेन पार्थिवः समाप्यच च यथा योग्यमनुज्ञाय गुरुं ततः प्रतिज्ञा मकरोद्राजा प्रथमे ददनुत्तमम् आजीवान्तं धरिष्यामि यत्ने नेदि महामतिः अथानुज्ञाप्य राजानम् वसिष्ठो भगवान् ऋषिः सन्निवर्त्यानुगच्छन्दं प्रजगाम निजाश्रमम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने वसिष्ठगमनं नाम सप्त चत्वारिंशत्तमोऽध्यायः